अथर्वेदे द्वितीयाष्टके प्रथमोऽध्यायः ओ प्रस्पान्तम् रघुमञ्जरोऽन्धो यज्ञम् रुद्राय मीषुषे भरद्धं। दिवो अस्तोष्य सुरस्य वीरैरिशुद्धे वरुतो रोदस्योः पत्नीव पूर्वभूतिम्बा वृहध्या उषा सारक्ता पुरुधा विदाने स्तरीर्णार्कम् युतम् वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः मम त्व नः परिज्ञमाऽवसरः वातो अपामृषण्वान् शिशीतमिन्द्रा पर्वता युवन्नस्तन्नो विश्वे बलिवस्यन्तु देवा उत त्या मे यशसाश्वेतना यैव्यन्तापान्तौ शिजो हुमध्यै प्रणवो नपातमपाङ्कृध्वम् प्रमातरारास्तिनस्यायो आवोरुभ्युमौ शिजो हुमध्यै भोषे वशं समर्जु श्रुतम् सदने विश्वदस्यीम् श्रोतु न श्रोतुरातिः सुश्रोतुः सुक्षेत्रासिन्धुरद्भिः सुषेसावाम् वरुणमित्ररातिर्गवाम् शता वृक्षयामेषु वज्रे श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिम् निरुन्धानासो अग्मन् अस्यस्तुषे स्तु शेमहिमघस्य राधस्य चासने मलभुषः सुवीराः जनो यः जा पज्रेभ्यो वाजिनी वानुश्वावतो रथिरो मह्यम् सूरिः जनो यो जा मित्रावरुणावभिधृगपो नवाम् सुनोत्यक्ष्णया धृग स्वयं स यक्ष्मम् हृदये निधत्तः आपयदीम् होत्राभिरृता वा सौराततो नः श्रोतम् सुजोतः श्रद्धस्तरो नराङ्ूर्तश्रवाः विसृष्टरातिर्याति बाह्वश्रुत्वा विश्वाः सुभृत्सुसमिच्छोराः अथग्मन्तानहुशोहवम् सूरे शोताः राजा अमृतस्य मन्द्राः न भोजुभोजम् एतम् शर्धन् धामयस्य सूरेरित्यवोचन्दशतयस्य नंशे द्युम्नानि येषु वसुतातीरारम् विश्वे सन्वन्तु प्रभृतेषु बाजम् मन्दामहेदशतयस्य दासेऽर्विर्यत्पञ्च बिभ्रतो यन्त्यन्ना किमिष्टाश्व इष्टरश्मिरेतरीशारासस्तरुषरञ्जतेर् हिरण्यकर्णम् मणिग्रीवमर्णस्तन्नो विश्वे वरिपश्यन्तु देवाः अर्यो गिरः सद्य आ जग्मुशीरोस्राश्चातन्तु भये स्वस्मे चत्वारो मामशर्सारस्य शिश्वस्त्रयो राज्ञ आयभसस्य जिष्णोः रथो वाम्मित्रावरुणा दीर्घाप्सास्योमगभस्तिः सूरो नाद्यूत् पृथुरथो दक्षिणाया अयोज्जैनन् देवासोः अमृतासो अस्थुः कृष्णादुतस्थादर्या आविहायाश्चिकित्सन् देवानुषाय क्षया पूर्वा विश्वस्माद्भुवनादबोधिजयन् देवाजम् बृहति समुद्री उच्चाव्यक्ष्यद्युवतिः पुनर्भूरोषा अगन् प्रथमा पूर्वभूतौ यदद्यभागम् विभजासिरभ्यगुरोः देविमर्त्यत्रा सुजाते देवो नोऽत्र सभितादमोहो नागसो मोचति सूर्याय ग्रहम् ग्रहमहनायात्यच्छाः दिवे दिवे अधिनामादधाना शिषाः सन्ति द्योतना शश्वतागारग्रमग्रविद्भजते वसूना भगस्य स्वसा वरुणस्य जामिरुषः सून्द्रते प्रसमाजरस्व पश्चासलघ्यायो अघस्य धाता जये मतम् दक्षिणजारथेन धीरताम् सोन्द्रता उत्पुरम् धीरुदग्नयः शुशुचानासोः विभातीः अपान्यदेत्यभ्या अय्यदेति विशुरूपे अहनि सञ्चरेते परीक्षितो स्तमो अन्या गुहाः करद्यौ दुषाश्रोषु चारथेन सदृशी रद्य सदृशी दुष्वो दीर्घम् सचन्द्रे वरुणस्य धाम अनवद्यास्त्रिंशतम् सद्यः जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादनिष्टश्वितीजी ऋतस्य योषानमिनातिधामाहरहर्निष्कृतमातरञ्जी कन्ये एव तन्वा आशासदानाङ्गेषि देवि देवमियक्षमाणम् संस्मयमाना युवतिः पुरस्तादाविर्वक्षाम् सुसङ्काशा मातृमिष्टे वयोशाविः स्तन्वम् कृणुषे दृषेकम् भद्रात्वमुषोऽपितरम् यच्छ अन्या उषसो नशन्त अश्वावतीर्गोमतीर्विश्वा रायतमाना रश्मिः सूर्यस्य पराचयन्ति पुनराचयन्ति भद्राणामवहमाना उषासाः कृतस्य रश्मिमनुजमाना भद्रम् भद्रम् क्रतुमस्मासुधेः उषो नो अद्य सुखभाव्युच्छास्मासुरायो मघवत्सु चो उषा उच्छन्ति समिधाने अग्ना उद्यन् सूर्य उर्विजा ज्योतिरश्रेत् देवो नोऽत्र सवितान्वर्थम् प्रासावेद्विपत्प्रचतुष्परित्यै अमिनति दैव्यानिमृतानि प्रमिनति मनुष्याः युगानि यीयुषीणामुपमा शश्वतीनामायतीनाम् रथमोषाम् यद्यौत् एषा दिवो दुहिता प्रत्यदर्श ज्योतिर्वसानासमना पुरस्तात् रतस्य न्वेति साधु प्रजानति वनदिशो मिनाति उपो अदर्शि शुन्धुवो न वक्षो नोधा इवाविरकृतप्रियाणि अद्मसन्नसतो बोधयन्ति शश्वत्तमागात्पुनरेयुषीणाम् पूर्वे अर्धे रजसो अप्यस्य गवाञ्जलित्र्यकृतप्रकेतुम् युप्रथते वितरम् वरीय ओभान्ति पित्रोरुपस्था एवेदेशारुतमादृशे कन्नाजामिन्नपरिवृणक्तिजामिम् अरेपसा तन्वा आशासदानार्भातीशते न महो विभाति अभ्राते वपुंसदेति प्रतीचीकर्तारुगिवसनचेतनानाम् जायेपत्यवुशती सुवासा उषाहस्रेव निरिणीते अप्साः स्वसा स्वस्रे ज्यायस्य योनिमारैकवैत्यस्याः प्रतिदक्ष्येव यच्छन्ती रक्ष्मिभिः सूर्यस्यान्यङ्के समनगा इव आसाम् पूर्वा आसामः शुशवश्रेणामपरा पूर्वामभ्येति पश्चात् ताः प्रत्नपन्नम् व्यसीर्नूनमस्मेरेवदुच्छन्तु सुदिना उषासाः प्रबोधयो सः प्रणतो मघोन्यबुध्यमानाः प्रणयः स सन्तु रेवदुच्छमघवद्भ्यो मघोनिरेवत्स्तोत्रे सू नृते जारयन्ती अभेयमश्वै द्युपतिः पुरस्ताद्युङ्क्ते भिलूनमुच्छादसति प्रकेतुर्ग्रहम् ग्रहमुपतिष्ठाते अग्निः उपत्ते वयश्चिद्वसतेरपप्तन्नरश्च येऽपि तुभाजो व्युष्टौ अमासते वहसि भूरि वाममुषो देवि दाशुषे मर्त्यायभंस्तोम्या ब्रह्मणा युष्माकम् दे वीरवसासनेमसहस्रिणम् च शतिनम् च वाजम् प्रातरत्नम् प्रातरित्वा दधाति तम् च गित्वान् प्रतिगृह्यानि धत्ते तेन प्रजाम् वर्धयमान आयुः राजस्पोषेण सृजते सुवीराः सुगुरसत्सु हिरण्यस्वश्वो इन्द्रो दधाति यस्त्वायन्तम् वसुना प्रातरित्वो मुक्षीजये बपदि मुत्सिनाति आयमद्य सुकृतम् प्रातरिच्छन्निष्टेः पुत्रम् वसुमदारथेन अंसोऽ सुतम् पायय मत्सरस्य क्षयद्वीरम् पृणन्तम् च वपुरिम् च श्रवस्य वो घृतस्य धारा उपयन्ति विश्वताः नागस्य पृष्ठे अधितिष्ठति श्रितो यः प्रृणाति सः देवेषु गच्छति तस्मा आपोघृतमर्णम् त्रि सिन्धवस्तस्मा इयम् दक्षिणा दक्षिणावन्तो अमृतम् भजन्ते दक्षिणावन्तः प्रतिरन्त आयोः मा, मा पृणन्तो दुरितमेन आरन्माया रिषुः सूरयः सूरतासाः अन्यस्तेषाम् परिधिरस्तु कश्चिदपृणन्तमभिसंयन्तु शोराः अमन्तान् सोमान् प्रभरे मनीषा सिन्धावधिक्षियतो भाव्यस्य यो मे सहस्रममिमीतसवानतोऽर्तो राजाश्रव इच्छमानः शरतम् राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान् सद्य आदम् शरतम् कक्षी वाङ्मसुरस्य गोनान् विश्रभोजरमाततान उपमास्यावास्वनयेन दत्ता वधूमन्तो दशरथासो अस्थुः षष्टिः सहस्रमनुगव्यमागात्सनत्कक्षीवाङ्गभिपित्रे अह्नाम् चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणीम् नयन्ते मदच्युतः कृशनावतो कक्षीवन्त उदमृक्षन्त वज्राः पूर्वामनुप्रयतिमादते वस्त्रीन् युक्ताम् अष्टावरिधाः यशोगाः सुबन्धवो ये विश्यारिवव्रा अनस्वन्तश्रववीषन्तभद्राः आगथिता परिगथिता याकषीके भजङ्गहे ददा आदिवश्यञ्जादुरीयाशूनाम् भोज्याशता उभो मे परा वृषमा मे लभ्राणि मन्यथाः सर्वाहमस्मिरो न शा गन्धारीणामिवाविका अग्निं होतारं मन्येदास्वन्तम् वसुं सोदुं सहसो जातवेदसं विप्रन्न जातवेदसं य ऊर्ध्वया स्वध्वरो देवो देवाच्यार्पा घृतस्य विभ्राष्टिमनुवष्टिशोचिषाजुह्वानस्य सर्पिषाः यदिष्ठन्त्वा यजमाना हुवे मध्येष्ठमङ्गिरसाम् परिज्ञानमिवद्याम् होतारन्तर्षणीनाम् शोतिष्के संवृषण्यमिमाविशः प्रावन्तु जूतये विशाः स हि गुरोचितोदसा विरुग्मदादीद्या नो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः वीलुचिद्यस्रमृतौ सुपद्मने वयत्स्थिरम् विश्यामाणोऽयमते नायते धन्नासः नायते चिदस्मानु अनुदुर्यथा जिष्ठाभिरनटिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे प्रयः पुरोणिगाहते रक्षद्वने एव शोचिषा स्थिरा चिदन्नानि ऋणात्योजसा नि स्थिराणि चिदोजसा तमस्य वृक्षमुपरा सुधीमहिनक्तयः सुदर्शतरो दिवातरादप्रा आयुषे दिवातरात् आदस्यादुर्ग्रहणवद्वीणुशर्मनसूनवे भक्तमभक्तमवोऽन्तोः अजराः अग्नयोऽ्यन्तोः अजराः स हि शर्धो न मारुतन्तु विश्वनिरप्रस्वतीशूर्वरास्विष्टनिरार्तनास्विष्टनीः आदद्धव्यान्या गतिर्यज्ञस्य केतुरर्हणा अधस्मास्य हर्षतो हृषीवतो विश्वे पन्थान्नः शुभेन पन्था वितायदीङ्कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्तभृगवो मथ्नन्तो दाशा मृगवः अग्निरीशेवसूनाम् शुचिर्यो धर्णिरेषाम् प्रियाम् अभिधीङ्मनिषेष्टमेधिर आमनिषेष्टमेधिरः विश्वासाम् त्वा विशाम् पतिम् हवामहे सर्वासाम् समानन्दम् पतिम् भुजे सत्यगर्वाहसम् भुजे अतिथिम्मानुषाणाम् पितुर्नयस्यासया अमी च विश्वे अमृतासहावयो हव्या देवेश्वावयाः त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये युष्मिन्दमोहिते मतोद्युम्निन्दमृतक्रतोः अधस्माते परिचरन्त्यजरः सृष्टिवा नो नाजर प्रभो महे सहसा सहस्व सपुषद्बुधे पशुसेनाग्नये स्तोमो बभूत्वग्नये प्रतियलीम् हविष्मान् विश्वा सुक्षासुजोगुहे अग्रे रेपो भराग्ने देवे दिस्सजनाः सुेतुना महोरायस्वचेतुनाः महिषमिष्ठनस्कृतिसञ्चक्षे भुजे अस्यै महिस्तोतृभ्यो मघवन्सुवीर्यम् रुग्रो रुद्रो न शमसा अयङ्गाय तमनुषोधरी मणिमोताय तिष्ठ उषिजामनोरथमग्निस्वमनोरथम् मनूरता, विश्वसृष्टिः सखीयते रजिरिवश्रवस्यते अलब्धो होतानिषदरिळस्पदे परिवीत इळस्पदे तञ यज्दसाधमपि वातयामस्य तस्य पथा नमसा हविष्मता देवता ता हविष्मता स न ऊर्जामुपाभृत्यया कृपा न परावतो देवम् भाः परावताः ेवेन सद्यः पर्येति पार्थिवम् हुर्गीरेतो वृषभः कनिक्रदद्रेतः कनिक्रदत् शतञ्जक्षाणो अक्षभिर्देवो वनेषु दुर्बणीः स दोदधान उपरेषु सानुष्वग्निः परेषु सानुषु स पुरोहितो पुरोहितोदमेतमेग्निर्यज्ञः स्यात् भरस्य चेतति यज्ञस्य चेतति कृत्वा आवेधा इषो यते विश्वा जातानि पस्पशे यतोघृतश्रीरतिचिरजायत बन्निर्वेधा अनायत कृत्वा यदस्य कविशेषु वृन्दतेऽग्ने रवेण मरुतान्न भोज्ये शिरायन भोज्याः स हिष्वादानरिन्द्रिवसूनाञ्च मग्मनाः ्रासदे दुरितादभिः कृतः शंसा आदघादभिः कृताः विश्वो विहा आया अरतिर्वसुर्दथे हस्ते दक्षिणे तरनिर्नसि श्रधच्छ्रवस्य जानसि श्रत् विश्वस्मा इति स मानुषे वृजने नन्दमोहितोनिर्यज्ञेषु जेऽन्यो न विष्पतिः प्रियो यज्ञेषु सहव्या स हव्यामानुषाणामिडा कृताधिपत्यते सरस्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः अग्निम् होतारमीडते वसुधिजिम् प्रियञ्जे तिष्ठमरथिन्ये एरिरे हव्यवाहन्ये एरिरे विश्वायुम् विश्ववेदसम्भोतारय्यजतम् कविम् देवासो रण्मवसेवसूयवो गीर्भिरण्म् वसूयवाः यन्तम् रथमिन्द्रमेधसा तदे पाकासन्तमिशिरप्रणयसि प्राणपद्यनयसि सद्यश्चित्तमभीष्टयेकरोमशश्च वादिनम् सास्मा सास्माकमनवध्यतु जानवेधसा इमाम् वाचन्नवेधसा सश्रुधि यस्मापृतनासुकासुचिद्रक्षाय इन्द्रभरहूतजेन्द्रभिरसि प्रदूर्तयेन्द्रभिः यश्रोरैस्मा अस्सनितायो विप्रैर्वाजन्तरुता तमीशानास इरथन्तवालिनम् वृक्षमत्यन्नवालिनम् स्मो हिष्मा वृषणम् बिन्वसि त्वचम् कञ्चिद्व्यापीररुम् शूरमर्त्यम् परिवृणक्षिमर्त्यम् इन्द्रो तदुभ्यम् तद्दिवे तद् रुद्राय स्वयशसे पित्राय वोचम् वरुणाय सप्रथः सुमृणीकाय सप्रथाः अस्माकम् ब्रह्मोदये वा आपृत्सु शुकासुचित् न हि त्वा शत्रुस्तरते स्तृणोषियम् विश्वम् शत्रुम् स्तृणोषियम् निषो रामादिङ्गयस्य चित्ते जिष्ठाभिरभिर्नोतिभिरुग्राभिरुग्रोतिभिः नेषिणो यथाः पुरा नेनाशूरमन्यसे विश्वाहानिपूरोरपपर्षिवन्धिरासा वह्निर्नो अच्छा प्रतद्वो ओचेयम्भव्यायेन्द्रवेहव्योनय इषवान्मन्मरेजति रक्षोहामन्मरेजति स्वयम् सो अस्मदा विदो बथैरचेत दुर्मतिम् अवस्रवेदघशम् सोऽवतरम क्षुद्रमिव स्रवेत वनेमतद्धोत्र याचित्याः वनेमरयिम् रजिवः सुवीर्यम् रण्ड्वम् सन्तम् सुवीर्यम् दुर्मन्महानन् सुमन्तुभिरेषा आसत्याभिरिन्द्रम् जिम्नहूतिभिर्यजत्रम् जिम्नहूतिः प्रप्रावो अस्मे स्वयशोऽभिहोति परिवर्ग इन्द्रो दुर्मतीनान्दरीमम् दुर्मतीनाम् स्वयम् सारिशयध्येया न उपेशे अत्रैः हतेमसन्न वक्षति क्षिप्ता जोर्णिर्न वक्षति तन्न इन्द्रराजा परीणसा याहि पथा अनेहसाः पुरो याह्य रक्षसाः सतस्वनः पराक आसतस्वास्तमीक आ पाहिनो दूरादारादभिष्टिभिः सदा बाह्यभिष्टिभिः त्वन्न इन्द्रराजातरुषसोऽग्रञ्चित्वा महिमास क्षतवसे महे अन्यमस्मदृशेः कञ्चिद्रिवोरिक्षन्तञ्चिद्रिवः पाहि न इन्द्र सुष्टुतः श्रिथोपजाता स तमिद्दुर्मतीनाम् देवः सन्दुर्मतीना हन्ता पापस्य रक्षस्राता विप्रस्य मामतः अथा हि त्वा जनिताजीजनद्वसो रक्षोहणम् न्द्रयाह्युपनः परावतो नायमच्छा विदथा निवसत्पतिरस्तम् राजे वसत्पतिः हवामहेत्वा वयम् रजस्वन्तः सुते सचाः पुत्रासो नपितरं पितरम् वाजसातये मम् हिष्ठम् वाजसातये पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतन्न वंसगस्तादृशाणो न वंसगः मदाय हर्यतायते तु विष्टमाय धायसे आत्वा यच्छन्तु हरितो न सूर्यमहाविश्वे वसूर्यम् अविन्दद् दिवो निहितम् गुहा दादृहानो वज्रमिन्द्रो नभस्त्योक्षद्मेव दिग्मासनाय शंश्यत हि हत्यायशंश्यत संयिव्यान ओजसा शवोऽभिरिन्द्रमज्मनाः तष्टेव वृक्षम् वलि लोरिवृश्चसि परश्वे वलिवृश्चसि त्वम् वृथा नद्य इन्द्रसर्तवेच्छा समुद्रमसृजो रथाङ्गिव वाजयतो रथाङ्गिव ऊतीरयुञ्जतसमानमर्थमक्षितम् धेनोरिवमनवे विश्वदोः सोऽजनाय विश्वदोह सः इमान्ते वाचम्ब सूयन्त आयवो रथन्नीरस्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः शुंहन्तो जेऽन्यै यथा वाजेषु विप्रवादिनम् अत्यमिव शवसे सातये धना विश्वाधनानि सातये भिनत्पुरो नवतिमिन्द्रपूरवेदिवो दासाय महि दाशुषे धृतो वज्रेण दाशुषे धृतोवाय शम्बरम् गिरे रुग्रो अवाभरत् महोधना विदयमानवोजसा विश्वाधनान्योजसा इन्द्रः समत्सु यजमानमार्यम् प्रावद्विश्वेषु शतमोतिराजिषु स्वर्णमेष्वादिषु मनवेषासृतौ रतान् त्वचम् कृष्णामरन्धयत् दक्षन्न विश्वन्ोशति निञर्षशालमोशति सूरश्चक्रम् प्रबृहज्जात ओजसा प्रपित्वे मुषायति शाल आमुषायति कुशनायत्परावतो जगन् सुम्नादि विश्वा मनुषेऽवतुर्वणिनहा विश्वे वतुर्मणिः स नो रेभिर्वृषकर्मन् दुक्थैः पुरान्दर्तः पाजुभिः पाहि शग्मैः दिवो दासेभिरिन्द्रस्तवा नो वा पृथिथा अहोभिरिवद्यौ इन्द्रायभिद्यौ न सुरो अनन्नतेन्द्राय महे इन्द्रम् विश्वे सदोषसो देवासो र पुरः इन्द्राय विश्वासवनानि मानुषा रातानि सन्तु मानुषा विश्वेषु हित्वा सवनेषु तुञ्जते समानमेकं शमण्यवः पृथक् स्वश्यवः पृथक् तन्नापन्नपर्षणिम् शोषस्य धुरि धीमहि इन्द्रन्न यज्ञैश्चितयन्त आयवस्तो मेऽभिरिन्द्रमायवाह वित्वा ततस्रे मिथुना अवस्य वो व्रजस्य साता गव्यस्य निःसृजः सन्त इन्द्र निःसृजाः यद्गव्यन्ताद्वाजना स्वा अर्यन्ता समोहसि आविष्करि कृद्वृषणम् स चाभुवम् वज्रमिन्द्र स विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्रशारतिरवातिरः सासहानो अवातिरः शासस्तमिन्द्रमर्त्यमयजुंशवसस्मदे महेममुष्टाः पृथिवीमिमा अपो मन्दसान इमा अपः आदित्ये अस्य वीर्यस्य चर्किरन्मदे शोर्षन्नुषिजो यदा विथ सुखीयतो यदा विथ चकर्थकारभ्यः पृतना सुप्रमन्तवे ते अन्यामन्यान्नद्यम् स निष्णतः श्रवस्यन्तः उतो नो अस्याषसो वृषे तह्या अर्कस्य बोधि हविषो हवीमभिः स्पर्शाता हवीमभिः यदिन्द्रहन्तवे मृधो वृषा वज्रिञ्चिकेतसि आमे अस्य वेधसो न वीयसो मन्मश्रुधिनवीयसः त्वन्तमिन्द्र वावृधानो अस्मयुरमित्रयन्तन्तु विजातमर्त्यम् वज्रेण शूरमर्त्यम् जहि यो नो अघायति शृणुष्व शुश्रवस्तमः ऋष्टम् नयामन्नपभूतु दुर्मतिर्विश्वापभूतु दुर्मतिः त्वया वयम् मघवन्पूर्ये धन इन्द्रत्वताः सासह्याम पृतन्यतो वनुजाम मनुष्यतः नेदिष्ठे अस्मिन्नहन्यधिवोचानुसुन्वते अस्मिन् यज्ञेऽपि च ये मा भरे कृतम् वा जयन्तो भरे कृतम् स्वर्जेशे भर आप्रस्य वक्मन्युषर्बुधस्वस्मिन्नञ्जसि प्राणस्य स्वस्मिन्नञ्जसि अहन्निन्द्रो यथा विदेशीर्ष्णाशीर्ष्णोपवाच्याः अस्मत्राते सध्यक् सन्तु रातयो भद्रा भद्रस्य रातयाः तत्तु प्रयः प्रत्नथा तेषु सुनयस्मिन् यज्ञे वा रमकण्मक्षयमृतस्य वारसिक्षयम् विदद्वोचेरथद्वितान्नः पश्यन्ति रश्मिभिः सखा विधे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः नो हि था ते पूर्वथा च प्रवाच्यञ्यदङ्गिरोभ्यो ऋणोरपौरजमिन्द्रिक्षन्नपौरजम् वयिभ्यः समान्यादिशास्मद्भ्यम् जेशियोत्सि च सुन्मद्भ्यो रन्धया कञ्चिदौ रतम् हृणायन्तञ्चिदौ रतम् संयज्जनान् क्रतुभिश्रूर ईक्षयद्धने हिरेतरुषन्तः श्रवस्य वः प्रयक्षन्तश्रवस्य वाः तस्मा आदुः प्रजापतिबाधे अर्चन्त्योजसा इन्द्र ओक्यन्दिधिषन्तधीतयो देवाङ्गच्छानधीतयाः युवन्तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादपतन्त विद्धतम् वज्रेणतन्तविद्धतम् दूरे चत्ता यच्छन् सद्गहनै यदि नक्षत् अस्माकम् शत्रून् परिशूर विश्वतो धर्मादर्शिष्टविश्वदाः पुनभिरोधसी हृते न द्रुहो दहामिषम् महीरनिन्द्राः अभिमुलग्य यत्र हता अमित्राः वैरस्थानम् परितुळा अशेषन् अभिवलग्याः चिरद्रिव शीर्षाया छिन्धिवटोरिणा पदा महावटोरिणा पदा अवासाम् मघवञ्जिशब्धो यातुमतीनाम् वैरस्थानके अर्मके महावैरस्थे अर्मके यासां तिस्रः पञ्चाशतोभिम्लङ्गैरपावपः तत्सुते मनायति तकत्सुते मनायति पिशङ्गभृष्टिमम् भृणम् पिशाचिमिन्द्रसं वृणा सर्वम् रक्षो निबर्हय अमर्मः इन्द्रदा दृशः श्रुतेनः शुशोच हिद्योः क्षानभीषाम् अद्रिवो घृणान्नभीषाम् अद्रिवः तृष्मिन्तमो हि शुष्मिभिर्वथैरुग्रेभिरीजसे अपोरुषघ्न अप्रतीतशो रसत्वभिस्त्रिसप्तैः शोरसत्वभिः नोतिः सुन्वन् क्षयम्बरेण सः सुन्वानो हि स्माय दत्यवद्विषो देवानाम वद्विषाः सुन्वान इत्युषा सति सहस्रापाज्यवृतः सुन्वानायेन्द्रो ददात्याभुवम् ऊर्ध्वा ते अनुसूनता मनस्तिष्ठतु जानती नियुत्वतारथेनायाहि दावने वायोमखस्य दावने मन्दम् तु त्वा मन्दिनो वाजविन्दवोऽस्मत्क्राणा सस्मृता अभिद्यभोगोभिः प्राणा अभिद्यवः यद्धः प्राणा इदद्धेदक्षं स चन्द्र ऊतयाः सध्रीजीना नियुतोर्दावनेधिय उपब्रुवत ईन्धियाः वायुर्युङ् ते रोहिता वायुररुणा वायुरथे अजिराधुरि वोल्हवे बहिष्ठाधुरि वोल्हवे प्रबोधया पुरन्धिञ्जार आससतीमिव प्रजक्षय रोदीवासयोषसश्रवसे वासयोषसाः तुभ्यमुषा सश्रुतयः परावधिभद्रावस्त्रा दन्मदेनसु रश्मिषु चित्रा नेषु रश्मिषु तुभ्यम् धेनुः स भर्दुःखा विश्वामसो निरोहते अजनयो मरुतो वक्षणाभ्यो दिव आ भक्षणाभ्यः तुभ्यम् शुक्रा सश्युतयस्तुरन्यवोमदेशोऽग्रादिषणन्त भुर्वण्यपामिषन्तभुर्वणि त्वाम् सारीरसमानो भगमीट्टेत क्ववीये त्वम् विश्वस्मात् भुवनाक्तासि धर्मणा सूर्या आत्तासि धर्मणा तन्नो वायवे शामपोर्यः सोमानाम् प्रथमः प्रीतिमर्हसि सुतानाम् प्रीतिमर्हसि उतो विहुत्मतीनाम् विषाम्बवर्जुषीणाम् विश्वायिते धेनवो दुःक्र आशिरम् कृतम् दुःकृत आशिरम् स्तीर्णम् बर्हिरुपनो याहि वीतरे सहस्रेण नियुता नियुत्पते शतिनीभिर्नियुत्वते शतिनी तुभ्यम् हि पूर्वपीतये देवा देवायये विरे प्रदे सुता सोमधुमन्तो अस्थिरन्मनायक्रत्वे अस्थिरन् तुभ्यायं सोमः परिपूतो अद्रिभिः स्पार्हावसानः परिकोशमर्षति शुक्रावसानो अर्षति तवायम् भाग आयुष सोमो देवेषु हूयते वहवायो नियुतो याह्यस्मयुर्जुषाणो याह्य आ नो नीर्धिष्यतिनीभिरध्वरम् सहस्रिणीभिरुपयाहि वीतयेवायो हव्यानि वीतये तवायम् भागरुत्विजः सरश्मिः सूर्ये सदा भर्युभिर्भरमाणा अयम् स तवायो शुक्रा अयम् सदा आवाम्रथो नयुत्वा अन्वक्षतव सेभिप्रयांसि सुधितानि वीतयेवायो हव्यानि वीतये पिबतम् मध्वो अन्धसः पूर्वपेजन्विवाम्भितम् वायवाचन्द्रेण राधसागतमिन्द्रश्च राधसागतम् आवान्धियो मृत्युरध्वराङ्गुपेमुम् रमृजन्तवादिनमाशुमत्यन्नवादिनम् भाजिना तेषाम् पिबतमस्मयो नो गन्तमिहोत्या इन्द्रवायुसुता नामद्रिभिर्युवम् मदा आयवाजदायुवम् इमे वाम् सोमा अप्स्वासुता इहाध्वर्युभिर्भरमाणा अयम् सत वायोः शुक्रा अयम्सता एते वामभ्यसृक्षततिरः पवित्रमाशवाः युवायवो तिरोमाण्यव्यया सोमाः सोऽत्यव्ययाः अतिवायो ससतो या आहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतम् ग्रहमिन्द्रश्च गच्छतम् विसून्दृता दर्शे रीयते घृतमा पूर्णया आनियुता आयाथो अध्वरमिन्द्रश्च याथो अध्वरम् अत्राहतद्वहेथे मध्व आहुति यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायवाः सा गङ्गावस्सुवते पच्यते योनते वाय उपदस्यन्ति धेनवो नापदस्यन्ति धेनवाः इमे ये ते सुवायो बाह्वो यसोऽन्तम् नरीते पतयन्त्युक्षणो महिंव्रासन्त उक्षणाः धन्वञ्चिद्ये अनाशवो जीराश्चिदगिरौकसः सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्मियन्तवः प्रसुज्येष्ठन्निचिदाभ्याम् बृहन्नवो हव्यम् मतिम् भरता मृडयद्भ्याम् स्वादिष्ठम् मृडयद्भ्याम् ता सम्राजाकृता सुती यज्ञे यज्ञ उपस्तुता रथैनोः क्षत्रम् न कुतश्च राधृषे देवत्वन्नो चिदाधृशे अदर्शि गातुरुदवेवरीयसीपन्था ऋतस्य समयंस्तरश्मिभिश्चक्षुर्भगस्य रश्मिभिः ज्योक्षम् मित्रस्य साधनमर्यम् नो वरुणस्य च अथाः दधाते बृहदुःख्या अम्बयमुपस्तुत्यम् बृहद्वयाः ज्योतिष्मति मलितिम् धारयत् क्षितिम् सर्वतीमासचेते दिवे दिवेंसा दिवे दिवे, दिवे ज्योतिष्मत्क्षत्रमाशाते आदित्या दारुणस्मली मित्रस्तयोर्वरुणो यातयज्जनोर्यमायातयज्जनः अयम् मित्राय वरुणाय सन्तमस्सोमो भूपपानेष्वा भगो देवो देवेष्वा भगः तम् देवासो जुषेरतविश्वे अद्य सजोषसः तथा राजानाकरथोयलीमहरताबानाय लीमहे यो भित्राय वरुणायाभिधज्जनो नर्वाणन्तम् परिपातो अंहसो दाश्वाम् संवर्तमम् हसःक्षत्रितोऽयम् तमनो रतम् एनोः परिभूषतिम् व्रतम् स्तोमयीराभूषतिम् व्रतम् नमो दिवे बृहते रोदसीभ्याम् मित्राय वोचम् वरुणाय मीळुषे स्मृलीकाय मेळुषे इन्द्रमग्निमुपस्तुहि द्युक्षमर्यमणम्भगम् यो जीवन्तः प्रजया स चेमहि सोमस्योती स चेमहि ऊतीदेवानाम् वयमिन्द्रवन्तोमम् श्रीमहि स्वयशसोमरुद्भिः अग्निर्मित्रो वरुणः शर्मयम् सन्तदश्याममघवानो वयम् च इति द्वितीयाष्टके प्रथमोऽध्यायः